आदि पर्व अनुक्रमणिका पर्व प्रथमोऽध्याय नारायणम् नमस्कृत्य नरम् चैव नरोत्तमम् देवीम् सरस्वतीम् व्यासन्ततो जयमुदीरयेत् ओम् नमो भगवते वासुदेवाय ॐ नमः पितामहाय ओम् नमः प्रजापतिभ्यः ॐ नमः कृष्णद्वैपायनाय द्वैपायनाय ॐ नमः सर्वविघ्न विनायकेभ्यः लोमहर्षण पुत्र पौराणिको नैमिशारण्ये शौनकस्य कुलपतेर् द्वादश सत्रे सुखासीनान् अभ्यगच्छत् ब्रह्मर्षीन् संशित व्रतान् विनया वनतो भूत्वा कदाचित् सूतनन्दनः तमाश्रममनुप्राप्तम् नैमिषार्ण्यवासिनाम् चित्रा श्रोतुम् कथास्तत्र परिवव्रस्तपस्विनः अभिवाद्य मुनीस्तांस्तु सर्वानेव कृताञ्जलिः अपृच्छत् स तपो वृद्धिम् सद्भिश्चैवाभि पूजितः सर्वेष्वेव तपस्विषु निर्दिष्टमासनम् भेजे विनयाल् लो महर्षणि तु विश्रान्तमुपलक्ष्य च अथा पृच्छदृशिस्तत्र कश्चित् प्रस्तावयन् कुत आगम्यते सौते क्वचायं विहृतस्त्वया कालः कमलपत्राक्षशम्सैतत् पृच्छतो मम एवम् पृष्टोऽब्रवीत् सम्यग् यथा वल्लौ महर्षणि वाक्यं वचन सम्पन्नस्तेषाञ्च तस्मिन् सदसि विस्तीर्णे मुनीनाम् भावितात्मनाम् सौथिरुवाच जनमे जयस्य राजर्षेः समीपे पार्थिवेन्द्रस्य सम्यक् च कृष्ण द्वैपायन कथिताश्चापि विधिवत्या वै शम्पायनेन वै श्रुत्वा हन्ता विचित्रार्थाः महाभारत संश्रिताः बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च समन्त पञ्चकम् महीक्षिताम् दिदृक्षुरागतस्तस्मात् समीपम् भवतामिह आयुष्मन्तः सर्व एव ब्रह्म भूता हि मे मता अस्मिन् यज्ञे महाभागाः सूर्य पावक वर्चसः कृताभिषेकाः शुचयः कृता भवन्त आसने स्वस्था ब्रवीमि किमहम् द्विजा पुराण संहिताः पुण्याः कथा धर्मार्थ संश्रिताः च महात्मनाम् ऋषय ऊचुः द्वैपायनेन तत् प्रोक्तम् परमर्षिणा सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् तस्याख्यान वरिष्ठस्य विचित्रपदपर्वणः सूक्ष्मार्थ न्याय युक्तस्य वेदार्थैर्भूषितस्य च भारतस्येतिहासस्य पुण्याम् ग्रन्थार्थ संयुताम् संस्कारोपगताम् ब्राह्मीम् नानाशास्त्रोपबृंहिताम् जनमे जयस्य याम् वेदैश्चतुर्भिः संयुक्ताम् व्यासस्याद्भुतकर्मणः संहिताम् श्रोतुमिच्छामः पुण्याम् पाप भयापहाम् सौतिरुवाच आद्यम् पुरुषमीशानम् पुरुहूतम् पुरुष्टुतम् ऋतमेकाक्षरम् ब्रह्म व्यक्तं सनातनं। सनातनम् असत्य सदसत्यैव यद्विश्वम् सदसत्परम् परावराणाम् स्रष्टारम् पुराणम् परमव्ययम् मङ्गल्यम् मङ्गलम् विष्णुम् वरेण्यमनघम् शुचिम् नमस्कृत्य हृषी केशम् चराचर गुरुम् पूजितस्येह सर्व प्रवक्ष्यामि मतम् पुण्यम् व्यासस्याद्भुतकर्मणः आचख्युः कवयः केचित् सम्प्रत्याचक्ष्यते परे आख्यास्यन्ति तथैवान्ये इतिहासमिमम् भुवि इदम् तु त्रिषु लोकेषु महज्ञानम् विस्तरैश्च समासैश्च धार्यते यद्विजातिभिः अलङ्कृतम् शुभैः शब्दैः समयेर्दिव्यमानुषैः छन्दो वृत्तैश्च विविधैरन्वितम् विदुषाम् प्रियम् पुण्ये हिमवतः विशोऽध्यदेहम् धर्मात्मा दर्भ संस्तरमाश्रितः शुचिः सुनियमो व्यासः शान्तात्मा तपसि स्थित गतिम् प्रविश्य योगम् ज्ञानेन सोपश्यत् सर्वमन्तत